एकोनसप्ततितमोऽध्यायः द्रौपद्युवाच पुरस्तात्करणीयम् मेन कृतम् कार्यमुत्तरम् विह्वलास्मि कृता नेना कर्षता बलिना बलात् अभिवादम् करोम्येषाम् कुरूणाम् कुरु मया वैशम्पायन उवाच साते न च समाधूता च तपस्विनी पतिता विलला पेदम् सभायामतथोचिता द्रौपद्युवाच स्वयंवरे यास्मिनृपैर्द्रष्टारङ्गे समागतैः न द्रष्टपूर्वाचान्यत्र साहमद्य सभाङ्गता यान्न वायुर्न चादित्यो द्रष्टवन्तौ पुरा गृहे साहमद्य सभा मध्ये दृश्यास्मि च न संसदि यान्न वृष्यन्ति वा ते न स्पृश्यमानाम् गृहे पुरा स्पृश्यमानान् सहन्तेऽद्य पाण्डवास्तान् दुरात्मना मृश्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् स्नुषाम् दुहितरञ्चैव क्लिश्यमानामनर्हतीम् किन्वतः कृपणम् भूयो यदहम् स्त्री सती शुभा सभामध्यम् विगाहेद्य क्वनु धर्मो महीक्षिताम् धर्म्याम् स्त्रियम् सभाम् पूर्वे न नयन्तीति न श्रुतम् कौरवेयेषु पूर्वो धर्मः कथम हि भ्याूना पार्षद से सा सती वासुदेव से चखी पार्थिवा